कृतिराजा च कौरव्यशूकराणां विषाम्पे अददाद्गजरत्नानां शतानि सुबहून्यथ विराटेन तु मत्स्येन बल्यर्थं हेममालिनां कुञ्जराणां सहस्रेद्वे द्वे मत्तानां समुपाहृते पांशुराष्ट्राद्वसुदानो राजा षड्विंशतिं गजान् अश्वानाञ्च सहस्रे द्वे राजन् काञ्चनमालिनां जवसत्त्वोपपन्नानां वयस्थानां नराधिप बलिञ्च कृत्स्नमादाय पाण्डवेभ्यो न्यवेदयत् यज्ञसेनेन दासीनां सहस्राणि चतुर्दश दासानामयुतं चैव सदाराणां विशाम्पते गजयुक्ता महाराजरथाः षड्विंशतिस्तथा राज्यं च कृत्स्नं पार्थेभ्यो यज्ञार्थं वै निवेदितम् वासुदेवोऽपि वार्ष्णेयो मानं कुर्वन् किरीटिनः अददाद् गजमुख्यानां सहस्राणि चतुर्दश आत्माहि हि कृष्णः पार्थस्य कृष्णस्यात्मा धनञ्जयः यद्ब्रूयादर्जुनः कृष्णं सर्वं कुर्यादसंशयम् कृष्णो धनञ्जयस्यार्थे स्वर्गलोकमपि त्यजेत् तथैव पार्थः कृष्णार्थे प्राणानपि परित्यजेत् सुरभींश्चन्दनरसान् हेमकुम्भसमास्थितान् दर्दु संचयान मलयादर्दुराचनागुरसया मणित्ना भास्वी कांचनम सूक्ष्मवि नले भाते ह्युपस्थितौ समुद्रसारं दूर मुक्तासङ्घां तथैव च